मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टीन् पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः श्रीगणेशाय नमः शिव उवाच शृणुदेविकथां पुण्यां गणेशप्रीतिवर्धिनीं यज्जादमादिकाले वै तत्तेऽहं कथयामि गर्वयुक्तं प्रभावतः भगवांस्तमुवाचेदं वेदकर्ता पिदामहः ब्रह्मोवाच विष्णो त्वं यदि पादा सर्वे महान् प्रभुः पश्यो दरगदो भूत्वा प्रभावं मे जगद्गुरो ब्रह्मणो गिरमाकर्ण्यप्रविष्टोऽसौ जनार्दनः योगमायाबलेनैव योगीशो जठरे विधेः ब्रह्माण्डरचनां तत्र दृष्ट्वा नानाविधां पराम् नाभिपद्मयुधं विष्णुं ददर्श पुरुषोत्तमः विस्मिदो हृदि मोहेन महद पश्यन्नान्तं जगामासौ निःसृतो देहमध्यदः निःसृतः प्रणिपत्यादौ तं विधिं त्ववदत्प्रभुः ब्रह्मन्नान्दं प्रजानामि वैनसंशयः वै न संशयः त्वदीयजठरेहं वै भवान् गुरुः सर्वे नात्र सन्देहस्रष्टा स्वप्रभावदः त्वमेव भगवन् पश्य मदीये जठरे परम् प्रभावं पूर्णभावेन मदीयं कीदृशं प्रभो नारायणवच श्रुत्वा ब्रह्मा विस्मितमानसः योगस्यैव प्रभावेण गदस्तत्र यथा रुचिः विष्णोश्च जठरे ब्रह्मा ब्रह्माण्डं लोकसङ्कुलम् ब्रह्माणमपरं तत्र स्थितं पश्यन् विमोहितः ब्रह्मानन्दं जगामासौ पश्यन् पश्यन् महात्मनः बहिर्गन्तुं मनश्चक्रे विष्णुना मार्ग आवृतः द्वाराणि योगभावेन पिहितानि स्वमायया भ्रमन् भ्रमन् स्वयं ब्रह्मा प्रापनो मार्गमुत्तमं तत्र योगबलेनाभिब्रह्मा वै पद्मनालतः निर्भिद्य सहसाद्वारं ह्ययौतेन बहिर्विधिः भाखेर बहिरागत्य विष्णुतं क्रोधेन स जगादः वचमानीयमां किं त्वं स्वच्छन्दो भवसि प्रभो अहं स्वेन प्रभावेण निःसृतो योगमायया द्वाराणि पिहितान्येव किमर्थं वद माधव वचनं प्राहदेवस्य श्रुत्वा विष्णुमहायशाः प्रहस्य तमुवाचेद्धं स्नेहयुक्तं समाहितः विष्णुरुवाच वशीकर्तुं विधेत्त्वाकमिच्छामि न जगद्गुरो द्वाराणि पिहितान्येव मया क्रीडार्थमादराद परस्परं तु कृतं यत् प्रभावं ज्ञादुकामस्य त्वपराधं क्षमस्व मे इति प्रसादितो ब्रह्मा प्रसन्नः प्राहतम् पुनः क्रीडार्थं व्यत्वया विष्णो कृतं ज्ञातं न वै मया अहम् क्रोधसमायुक्तः सञ्जातो प्रभो अप्रियं भाषणं विष्णो यत्क्षमस्वकृतं मया तवान्दं नैव जानामि जठरेहं समास्थितः त्वं श्रेष्ठो मे गुरुसाक्षान्नात्र संशयवान् हरे भवानहमदप्राज्ञौ श्रेष्ठौ सर्वेश्वरौ परौ शम्भुःशक्तिश्च सूर्यश्च गर्वयुक्ता बभूविरे तेषां प्रमाणं तज्ज्ञेयमिति सस्मरतुः प्रभु तयोस्मरणमात्रेण संव्ययुस्तत्र तेऽत्रयः प्रथमं प्राप्तवांस्तत्र शङ्करशूलधृक् प्रभुः उक्तवांस्तौ किमर्थं मे स्मरणं वददं कृतं तत्रोच दुर्हरिर्ब्रह्माशृणुशङ्कर मे वचः तवैश्वर्यं कियन्मानं दर्शयस्व सदाशिव तयोर्वचनमाकर्ण्यगर्वयुक्तः सदाशिवः उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव शिव उवाच अहं हर्ता च सर्वेषां युवयोर्नात्र संशयः मत्तः परं न किञ्चिद्वै सर्वभावतः इत्युक्त्वा स स्वयं शम्भुर्दर्शयामास तौ ज्योतिरूपं महालिङ्गं परं सर्वत्र संस्थितं तत्तौ महाश्चर्यं विस्मितौ विधिमाधवौ अथ ऊर्ध्वं पुरः पश्चाद्वामदक्षिणसन्ततम् तत्र ब्रह्म स्वयं विष्णुमुवाच मधुरं वचः अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावदः शिवस्यान्तं प्रपश्याव कीदृशोऽयं महेश्वरः अतस्त्वं त्वरिदो भूत्वा कुरु शीघ्रमिदं वचः इत्युक्तो ब्रह्मणा विष्णुस्तं प्रत्युचे प्रभावदः ब्रह्मन्मह्यं वरं देहि पश्चाद्गन्तुं समुत्सहे भ्रान्तो ब्रह्मा भवत्तत्र वरं ब्रूहीदि सोऽब्रवीत दास्यामिनात्र सन्देहप्रीतस्त्वं वरयाशु च विष्णुरुवाच त्वं मे पुत्रो भवब्रह्मण्येष एव वरो मदः तस्य तद्वचनं श्रुत्वा विस्मितो विधिरब्रवीत वञ्चितोऽहं त्वया नूनं सम्भ्रमेस्मिन् समुद्भिदे दत्तो वरो यतस्तेन तव पुत्रो भवाम्यहं सृष्टिकाले च सम्प्राप्ते त्वन्नाभिकमलात् स्वयं देहं सृजामि योगेन पद्मजोहं तवात्मजः इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च प्रविष्टोऽशिवस्यापि द्रष्टुं पारं महात्मनः ब्रह्मापि त्वरितो भूत्वोर्ध्वं ययौ पारलिप्सय न तत्र पारमीशस्य प्राप्तवान् स पितामहः विष्णुश्च शङ्करस्याधो न पारं दृष्टवान् ततः बहुकालेन तो तत्रागतौ तौ खिन्नमानसौ परस्परविचारेण शङ्करं स्तोतुमुद्यतौ बद्धाञ्जलिपुडा वेदौ स्तोत्रं चक्रदुरुत्तमं विष्णु ऊजदुः नमस्ते शङ्करायैव नमस्ते शूलपाणये रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः उमापदे नमस्तुभ्यं वृषभेश्वरवाहन आदिदेवाय देवाय महादेवाय ते महा दे नमः प्रसीदभगवन् शम्भो नान्तं पश्यावहे विभो किं रूपं किं स्वभावं त्वां न जानीभः कथञ्चन दर्शय स्वात्मरूपं भो महेश्वरनमोऽस्तु नमोस्तुते। येन ते दे भजनं देवजनाः कुर्वन्ति निर्भयाः तयोर्वचनमाकर्ण्य शम्भु प्राकट्यमास्थितः तदस्थं तौ ददृशदुर्हरिश्च भगवान् विधिः वामभागे स्थितं विष्णुं दक्षिणाङ्गे पिदामहं। विश्वं चराचरं सर्वं लिङ्गे तत्रास्य संस्थितम् अपारमहिमानम् तम् दृष्ट्वा नेमधुरादराद उपसंहररूपं तत्त्वमेव परमेश्वरः तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः भगवान् पूर्वरूपेण सन्तस्तौ वृषभध्वजः उवाच तौ महादेवो वृणुदं वरमीप्सितं दास्यामि भवदो भावास्तोत्र सन्तुष्टमानसः य एतत्पठति स्तोत्रं स कामान् लभदेखिलान् मत्प्रियसोपि भवति मल्लोकेन्द्रे प्रगच्छति ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः ॐ